तिरोदा एतज्ञश्च यत्रवर्यः देवा उपसनः सारुपसनाम् प्रवज्ञम् प्रवृणके देवास्यैव यज्ञस्य लक्षिदथावृणत्ये जन लोकाः येभ्य एव लोकेभ्य यज्ञस्य शिरावलं च सत्सम्पद्यन्ते षड्वासवः त्रिभ्य एव यज्ञस्त्रिरावलं द्वादशप्रवणक्ये स्वादसमासाः संवत्सरः संवत्सरा एव यज्ञस्थितिलावन्ध्ये सुदृविवंशति सम्पद्यन्ते सुरविवंशे न समासाः अध्यमासेभ्य एव यज्ञस्थितिलावन्ध्य असौ सकृदेव प्रवृज्ञः ये कुचिरः अद्य कामेयप्रवणके केलावानुयज्ञः श्यालान्यमः श्यालानेव यज्ञः तस्य च अप्रिधाये प्रवञ्चाय प्रजादेव उक्ताने च दुःखप्रवञ्चाय प्रजाम् बतोनखवृक्षण्ये ऋषानि वा अच्युतञ्चालयन्ते षष्ठै दैवात्मा अच्युसञ्चालयुत्लावन्ध अवश्यम् वाता नित्याह राणो वे गोपानाः प्राणमेव प्रजा सुर्यादयते अपत्यम् गोपामित्याः असौवानादित्य गोपानाः सैवा प्रजागोपालने समेव प्रजानानाम् गोत्रायम् गोचे अनिपद्यमानमित्याः नक्ष्येऽपि निपद्यते आशपराजपथुलच्छरम् समित्याः आदक्ष्येण पराजपथुलच्छलने तद्रे चेष्टविरोजयवदान इत्याह ते ते ये च न विरोजे शमदान प्रजा अभिपक्ष्यते आसदेवस्य भुवनै त्वन्द नित्याह आत्यवदेवस्य भवनय त्वन्दः हस्तप्रावेन्मसुमाध्वेयेभ्याह्म समासोजेभ्यामित्याह स्वातन्दिकादैवात्मायति समग्ररज्ञाभिजय इत्याह जये स्मादेवस्मा श्वैले समर्जलग्निना विजयत्याः अद्य च वै रामग्निना सङ्गच्छदे स्वासमद्य सर्वदा गजयत्याः पूर्वमेवोताम् उत्तरेणाभिर्णादे सर्तादिपालव्या इत्याह तादृशेवास्मा शोकल्पैः हृदय रामनजयत्येत्याह शारदादेव कल्पयते विभिदेवैभवत्रायश्चेत्याः होत्राभिदैवन् लोकान् कन्दधाते विश्वासाम् भुवाम् वदयत्याः हरिमन्दिका देवास्मानुकल्पयते हैवश्रोत्तम् जैनकर्मदेवान् कारयेत्याः हरिदादेवास्मानुकल्पयते कपोषाम् वाजमत्रेण यत्र नैव वायुमुनित्याः कालैमे ध्यावाग साजाः सामेववरुन्धे गर्भादेवानामित्याह गर्भाकेनवानाः पितामतेना नित्याः प्रजालै मतयः तासामेषा यश्ववर्ग्यः सत्मा देवाः पथिप्रजानामित्याः पथिकेन प्रजानाः पतिक्रवेनामित्याह अदित्या रकवीनाम् तन् दैवादेवेन पवित्रायुण्डौर्येनारुत्यः दैवादित्यम् प्रवैम् शतकुण्डाः आयुद्धात्मपभ्यम् धर्मवक्षोजा अदेत्याः आश्रमे वेतामासाहाताना बोधेत्याः गोभिरत्यम् सेदैवकाशा भवन्ति अत्र एतमः सर्वै पुरुष प्राणाः प्राणानेवैजमानेन भागे अथवा दृशाः क्षणाविराय अन्नम् विराय विराजयिवान्नाद्यमवलम्भ्य त्यजिलाः सिद्धा सत्यवा होत्राभिप्रत्यः यद्युजागण्ड एतादेव कोत्राभिगे रुचिलमय क्षन्दराजये प्रजापद प्रजा असः प्रजानाभम् प्रत्यये रुचिलमय क्षन्दलाद्रजन्या वर्तते सर्वन्या भवने सम्प्रजाय धन्त ब्रह्मवत्रम् ब्रह्मवच्छिणा भवन्ते अध्ययन्ताय क्षं समायम्जे नवभ्रवैक्षपाद्य वैक्षता प्रजायता प्रजान् सत्येन सहेन चनावैक्षप्रजायता नास्ये ये प्रजान्यसहेन तत्र चजुर्वादे प्रजायते नास्य ये प्रजान्यसहजे स्वे मते सपे यत्याः समाद्य प्रजाम् प्रजायञ्जय सबैरधना बाहुभ्याम्ध्यो आए आदि के प्रत्येहिमाश्रय हसालेख्यदा वेख्यदामे हेत्याहेदास्य मनुष्यनामानि मनुष्यदाने रैवे नामाक्रे सत्सम् पद्यम् जय श्रद्धादवः ऋतुषरेवे नामाक्ये अदित्यामुच्चेतमुत्याहदेवे वायुस्तेन इत्याह वायुदेवत्यो देवत्तः पूजास्वापावृत्याः औष्णा वै देवतया स एवैनम् देवतयोजये हस्तच्छामृताः अस्ति नौ वै देवानाम् भिरौ साध्यामेवात्मैभैरभेत्याः तौ देवैनामपिष्णे दै आदिदेवतय सरस्वतिवापदेशित्याः ब्रह्म वैदेवानाम् सहस्वरे ब्रह्मदेवैनामो देवदे नात्रैरवैत्याः नेभ्य नैवैनाम् चेष्पलो नेत्याभ्याम् पिन्वत्सत्ये विंवत्सभोष्टे विन्द्रिन्दत्याः एताध्योका देवनाभ्यः पिन्वदे इन्द्रायिन्द्रस्य इन्द्रायन्द्रस्यत्याः इन्द्रमेवभाेन समध्यये त्रिरिन्द्रायत्याः तस्मादिन्द्रमेवक्रमः चायत्रयेत्य भावयमानादत्य समुद्राभिरेव नानादच्छार्गेण विहेत्याः भोर्ज एवम् भागमगः अस्मिन् मौला एतत् यज्ञाभ्यामेव गौरवाणाभ्याम्बरक्रियादाय इन्द्रामुद्राः अश्वभ्या नैव गौरवानाभ्याम्भे अथो अश्विना नैरुभागजाय नैदे ब्रह्मम् वा नावयत्याः अतो नैरुभागजाय नमध्यैते यत्र कुर्याय याजया मातवृहत्कालस्याक्षागन्धे यज्ञः पडित्याः शास्त्रयाजया माधारः भवक्षाकं लिग्भन्ते पाः सार्वेष्ट्याः शिवस्य मन्योलस्मेः तस्मादेवत्याहत्येवत्याहैव शालाकृतेभ्य परि गृह्णामेत्याह शालाकृते अन्तरिक्षण प्रापयच्छामेत्याह अन्दरिक्षणेन उपयच्छसे समागम् अनुष्ठभर्तुमर्हते त्याहेम् कृतचरणमदागत्य विरामेण निर्वन्ते यत् प्रदच्च प्रदे तेजो हेत्याहारिन्दये कृमायुन्धे मङ्गलक्षत्रमायुन्धे कृतविक्रम् नामायुन्धेत्या एस्यात्रवर्यः आत्मा वायुः उद्यत्यः कार्पन्नेव हनमानम् प्राणानागृहम् गच्छाः आंसारिज्ञः श्यावानैवज्ञः प्रतिभागे अग्निमधे अस्वादेश सप्तागैवेणम् जोगे सोमायुद्रवधे अस्वादे सोमरुद्रमानय सप्नागैवेन जोगे स्वरुणायता नित्यवधे अस्वादेत्याः अप्सुरेव महादित्यमान सप्तागेवनम् जोगे शिवरेश्वरे स्वाहेत्याः ब्रह्म वै देवानान्द्रश्वरे ब्रह्म हे वैदरे हरित्रे तद्भुमरे विभवने प्रभुवदेवाय वयस्ताहेत्याः कम् वै परिषद्भुमान विभवान् प्रभुराजराजवान समाय वैनु जहरे शिवायस्ताङ्गत्याह वे ेलाभ्यकर्मणम् देवदानाभ्यो जहोजेपद्यम् विराज शिरादेवान्नाभ्यमन्ध रौहिणाभ्याम् देवात्सुमर्गम् लोकमायन् तत्रोभिनयाणत्वम् शत्रो विनवभवनः लोहिणाभ्यामेव द्यमानस्तु अग्रम् लोकमेते आज्वालकेरला जरामिश्वादिज्यालयागत्वारकेरला जरामि सज्जव्याः आदित्यमेव तदण्डलोक्याव्यवस्थाः दात्रया सत्पावानित्यम् लोके विश्वासादक्षिणदृत्याः विश्वानेव देवान्ते अथोदित्याः विश्वानेव देवान्धा समर्थयते साहाघर्मः अश्विनानेवभा समर्थयते साहाय्याः अभ्यैनम् धारयते असाभिलेवाकः अस्मिना धर्मम् पादतिपानमहाग्योतिहित्याः अस्मिना हेमभागधेयेन हनुभ्यानुवत्यै पायन्द्रायपायन्दात्याह चिन्ता धर्मस्य जयदोजये सखामहत्ये अनुयप्रजाकृत्ये धर्मत्याः पूर्वमेवाभिनम् अभिनागे अनुभवन्त्यावंसाहानुमत्ये त्वम् राज्यम् यथा नरेण कृशव्या इत्याह यथा विदवेदने चिकिताम् यज्ञसा इत्याह स्वर्गमेवैनम् लालिङ्गमयते दिवम् गच्छान्तरिक्षण्यक्षवेम् गच्छयत्याः हे क्लेणम् लागे प्रतिष्ठापयते पञ्चपद्रा गच्छयत्याः त्रिक्लैवेणम् प्रतिष्ठापयति देवान् धर्मवान् यक्षे धर्मयत्याः द्वे क्षेवेणम् प्रतिष्ठापयते यत् किन्वये पर्व पर्जन्या भवये यत्राम् किम्वले तद्देवानाम् चन्दक्षिणाम् सत्यणाम् यन्प्रत्यगे सर्वनाम् तिरुङ्गे तद्द्राणाम् प्रान्तमुदन्तम् किन्वैले देवतागः अथ सर्वादृश किन्वैदे सर्वादृशः समे सङ्गे अन्धःपरिभिन्वैरे तेन्धाय इदपि विभ्यो भेत्याः े हिलमानादिभेत्याः हिलमानायेवेना माचुरमासानास्य सख्यम् देश्यादिभेत्याः आत्म्य वेदामाचुरमासानास्य तुष्ये ये त्वा भिन्नाय त्वेन्द्रियाय त्वा भोष्ठे त्रेत्याः यथावित एव धर्मा ब्रह्माचारयश्च ब्रह्मण्येवनम् प्रतिष्ठालयज्यो याज्यम् लत्या शयनेन सङ्गमे स्वाधयश्चाः सा एव देवताः हैला प्रणः छेष्ठय वैनोले जालाभिरेभ्या है जालाभि हैत्याः जयवे च रुदन् चे रुद्रत्याः रुद्रमे समधर्ये सर्वदत्तमाख्ये सर्वदेव रुद्रम् निरवरे जय पुरञ्च निरस्करे केशाय रुद्रश्च स्वाया नैव निरवरे जय अवमत् प्रचले त्यक्ताय क्षुरस्य प्रमालिकृत्यान्नान्वेष्यः अपि पदमान्धवरात्रिनाथ केशाय अज्ञे रवित्तयम् मे रावत्दानाञ्जयित्याः आर्यवान् अपि पमराष्ट्रियान्धमा केशालय अग्ने भवित्रगापलिधत्वायम् मे दावत्सरामाञ्जयित्याः सब्सक्रों आटे, अग्जयरी जोर्यक्ति सोर्यक्त्क वादिल्दुञट्ण। समय ouais़ा, ही तरक्षी जोग०्द messaging 107. Canadia, Nith pighe, ũ설 HD شायोमा, oneguntat झौर्यक्ति फलाभयस्ताहे यथाफलाभवये उदयम् एव नित्याः प्राणो वा इन्द्रतमोग्निः प्राणैवेन हस्यरामय देव कर्म मधुम रामनाजमलक्षिनमध्याः ै सामाधारालिनायुं चेण शैले क्रमकरणमात्नीया रामानुभे राज न मन्मयेन विदय नास्ति राम उत्सृष्टं विदय शैल एव देवान्य हे देवादि एव भयम् सह युद्धादिवार्येत्यम् कृना गोपाले तस्मादय सञ्चार्यम् हे स्वर्गदेताय तस्मादेतानि साहादौर्येयप्रादस्य एतावा नक्षत्रस्य देवनाः सन्ता लोके भैलयक्षै लोकाः ये अध्य एव लोके भवेलने अन्यानुमश्चे दिवस्यादस्ता यानित्याः दिवगेव माकान्दाधार ब्रह्मणत्वावस्थाया इत्याः एकस्यैव लोकेव प्रजानाधारा प्राणस्यत्वावस्थायाः प्रजान्दाधारा शिव एव एकस्य चत्ववर्ग्यः अशोकलवादित्यत्ववर्ग्यः संयदक्षिणा प्रत्यञमुदये सिंहञ्जज्ञाने सत्तान्ते औदुम्बराय भवन्ते ओलुम्बरः लोकाः पुरुष पुरुधनुवे ले। योम हिरण्यमदेव ग्नेःवाग्नेः सत्समूसमेते षत्पुणः पर्यजे सत्सम्पद्यम् चतुमासयत्याः इयम् वा रसम् सत्यादेशे इत्यादुर्व्यामज्येतच्चते ओर्वा अन्नाध्यम्बे ओर्जीवेण अन्नाध्येन समर्चयति अनसनादि वा भवति नामादिकम् सर्वैत्याः चेदन्महिमानम् वृन्दि मध्यताम् आगच्छाः त्याह अविशारः पुर महान् सा नैवयते नमस्ते हरिगुन्धाय कृष्णापदनुवामगन्धर्मनित्याः स देवाश्च क्रियमाणस्याम् सरिगन्ते सदेवास्थैषेन पूर्वमेवादिकम् उत्तरेणा ज्यादित्याः वा स्मैकर्पयते राधाम् धर्म अमृतानि वा दरित्याः साना वा अमृताहलः सानानेवात्मैकल्पयते हेतत्त्वम् देवकर्म देवो देवान् वा गायित्याः देवा केशवम् देवानुपयते इदमहम् मनुष्या मनुष्या नित्याः मनुष्या मनुष्याभे ईश्वरा वेतमोद्वासयन्य प्रजा भजवन्तः प्रजागवदायत्वेन प्रजामेव भवान्तात्मन् दत्ते सुमित्राः बहोषयत्तः आदयमेवेतामाधा दुर्मिच्छा सत्सेवो यादुर्योहात्मानैत्रयम् च वयम् विश्वत्याः अविचार एव क्लेशः परमायत्मान् चक्रज्योद् पुरुत्यः नैव लोके कृतवित्करे असौ नित्यस्तु भग्कः भवनः हय नैवकान् नैवे प्रजावशम्बे देवः शुक्रम् वयो दुक्तान् प्रय ज्वन सिर्य करो सुक्रिया जलामान्य भवन्य हे धान्यक्षानि शुक्रयम्भरन् सुक्रियाणि अम्बा एतानि सुक्रियाणि आमजम्बा एतयो हेतानामन्यत्रयः श्रद्धाभयः शब्दाम् अत्रयः शा एयः तत्सेवानाम् तयान्ते हर्पयसान्ते प्रजापतिनैमन्ते प्रवज्ञम् रक्षयते तस्यैवम् विरुह प्रवचः प्रवचनयुत्रायज्ञामुत्सादयत्रामस्या शैतत्ववर्ग्यः शैलदेवया समुद्रेते उत्तरज्ञामुद्वादयरन्नकामस्या शिवमलयज्ञा शत्रवर्यः सुखमुत्तरयते शैत्येव्याय अन्नादय भवते चक्रयतमुद्वादियापर्यासरेनाम् पर्यादयागच्छासुरेभ्या नैव तत्पश्चाद्यम् रोदये स्वानेन अपरान्मध्य उद्वादय अपाम्ब एतन्मध्याद्योग्यः पदयस्यायस्यात् सत्याम् विश्रुत्वाज्ञाः चः अग्ने वैश्वादय प्रवर्धयति ओदुम्बर्यागुं शाखायामुन् अभय होदुम्बरः अन्नम् प्राणः सुः इदमहमनुष्यामुष्याय प्राणविरहेत्याः देवाश्च प्राणविरहे कार्यकाल्यमाचरे शत्रधर्भा उप एकदन्त एतावा अपामस्याः यवनाः असौषानित्यविमुलेरे असारेवारित्याग्य नियच्छरे यन्ते सम्राटकम्भुतः धर्मप्रवृत्तः शस्त्रवर्ग्यः श्रेलादूता श्री एवं वेदा ब्रह्मवादिनो वदन्ते योगेव पुण्याः कामयते पुण्याः शिवस्यै नामयम् एवम् वेद सप्तामने सर्वे दिवालक्तम् एतैवा एतश्च प्रियधनुभौ एतयश्च प्रियनामये हिम् धनुवा प्रियनाम् धामश्च जनतामायः सायत्र्ये देवेभ्यः प्रामुद देवा प्रवर्त्य देवानुक्षवान्य प्रवक्षेण आत्मवन्य शिमुख प्रवक्षम् करुणक्ये गायत्री नैवयत्री माहात्मदे श्च प्रजाे गोयानावा बुद्धः अतो कलामेदा च चतोरया प्रज्ञादिनावा महानिगुडा तेरुममेदा विदयेन नाम नरः धर्मवादं युजिते चलमुदयहा वन्ना स्तेदा तस्मादेव जयये भागेनिन्तुयाले भ्यः चलयः कविता भवन्त भोवत् देवाय कीयहं प्रवचन है भोत्सा प्राणा आवस्था अष्ट प्रवचनय चन्द्रमा भोव क्षत्राने यक्ष अहङ्कवृजलय पृथर्भोत्सङ्गे दे च मेहङ्कवृत्ति धाता भूत्वा चत्वमयहं गृत्ययतुर्भोत्सा गायत्री मे दे च नवमेहं प्रवृजलय नियङ्वृचय करुणा भोत्सविराजमे दे शिलेगाजयचलय इन्द्रा भोत्साहे चत्वारस्कालभजरां कजलय हस्ता परागमावणे शिवकालभ्रा अङ्कय हस्ता द्रवणे हे ॐ वेदाय वते अनन्त Om shan de shan de shan de Om Om Hari Sarva ryang elatha srama yuddhanam cha Om shan an dikshan de shan de हरे युवागुम् सम्भवता हरेरनुभवभ्यः पञ्चामनपानम् हैवस्पदगुम् सङ्गमनञ्जनाना यमकुम् राजानम् हरिदातु इदम् त्वावस्त्रम् प्रसमङ्गा गन्न कैतलो हैरा पुरा हिष्टाबोधमश्चिधान्ये तत्सम् बहुधामो विलद्यते वह्ने असुनेशाय वोढले रुण्यम् सुकृताञ्च वेदुःखविद्वानस्तव सद्भवनस्य भवताः तत्र ओजय महासानुवेदसर्वास्वास्मागम् अथयेन सर्ववेदो प्रयच्छन् बले दुःखविद्वान् आयुर्विश्वायः परिपार्सयित्वा दोषास्त्रायत्सहिता भुवनस्य पदहित पुरुषत्रया वर्गले लृगायुवज्ञहे हिता मात्र पुरुषत्रिया वर्गिले प्राणमभिस्कृतम् हरेण महेन्द्रदय हरि हृदय हृदयः आत्मा निरावः नैवी हृदयुललाकञ्जरे विश्वयन् लोकोरय आभ्यामृष्टम् अस्य लौप त्वमस्यायम् विश्वम्बुरानमुदपालयम् देशस्यैः प्रजान्तः ्रह्मण तेजसैमै मलाया अत्रैव त्वमिहवयुंशे भाग्य कृपा हरि गुरुभक्तात्रैव वय गुरुष्मात् कृपाना मृतरोम्याणाम् देवानमृतामालयन्त्राणाम् अग्ने हे त्वा चिक्षिको मा शरीरम् हिरा सुतम् करवो जातवेदोषय मे नम् परि गतारुभ्यः श्रुतम् हिरा जगद्यात वेदो मे नम् परिदत्ताः त्रिभ्यः हितागच्छा चेतांसाम् महात्मा जगच्छाशरीरैः हजवभागस्तवदातन्ते गोच्च वृदन्ते अद्य दत्ताफलहम् सुदान्यत्र भवकाः अयम् रेत्वमस्मादपियम् वेद प्रयोजनके हैष्मानः पुत्रपित्रेण विकृज्याधमे लोमयेमयम् सुगुधानयत्र ये लक्खे वभवो चाच्य तस्सारेतुत्वातिना लक्खे तस्सागे तस्य वस्वो रक्षदा लक्खे तस्साख्य नेभालाकाते सहविलालवदेस्वा वनालवदेस्वा जनेनमतेस्वा यमत्ना भेन तस्मै स्वाहा यत्र हि ध्वज कृष्ण स्वाहाय जले शिवम् दातु ममा मुदानर्ध इदम् दयेकम् परौषयेकम् द्वितीये लब्दोरालम्बितत्वादेशान्पक्षम् वदनत्र सौदन्यमत्रयोगौ शुणम् भरण्यम् हरिद्रानमेगौ स्वानौ चतुरक्षौ शवदौ साधुना कृता ेव्याय पुनर्दुमध्ये भद्राम् कृता येवाभिगच्छता हस्वन् भगेच्छाय हत्राय वयमीवायानुपरित्रगुण्डमन्तरिक्षेनालिम् मागुम् सर्वतनम् पुनामियम् दिलाकः परिष्ठमानाः भवता प्रजयास्तान् स्वयम्परिवक्ष्यन् द्वारा एवं दे वक्षाधो यमरन्वज्योतिरुत्तमम् भाता पुनादृता पुनादो खग्ने वक्षसाता शन्ते अद्य मम सामप्रधायत्सरे जायतां शम्बाया पुनः कामयक्नादुके मन्त्रोङ्कमेवन्याः वस्त्रमुदयसन्तमूर्त्याः सन्देहसमुद्र्याः वत्समुदयसन्तवर्याः सन्देश्वलिप्रिस्तोर्चन छत्रभोमे गुणभेदस्य गच्छदत्रत्वा देवस्य गीतादधातु छत्रे गच्छस्य गुणः वेदसत्रौ सभारञ्जनो मनमादिलेश कृमेह समुमादरेलम् शत्रभोमे गुणभेदस्य गच्छरत्रत्वा देवस्य गीतादधातु इदम् दयेकम् परौ दयेकम् जनेयेन ज्योतितालम्विरस्वा संवेतनस्तनुपरिचार्योलाभर्त्रे वृक्षत्रे व्यक्तोपक्षणेन ज्योमन्ये हिमे सत्यम् यम्यालम्विधानोत्तमन्नायमम् अस्मन्नैरेव्यात्मन्नादुजयन्तर्गाय स्वाहा आयादुदेवस्तु मनाभिमोह देवः प्रेताभिरक्ता आसीतदायविश्वः आसीतज्ञाने स्मः तत्सै भव यमाय दोताहरेः शमकुम्भयज्वागच्छत्यज्ञो गोहलेन्द्रः यमायशलेश्वरः य प्रदेवमूज्ञे हव्यञ्जोदन हिरन्नमयभ्यः पूर्वजैभ्यः पूर्वभ्यः पठ्यः चौ शयिद्वती हिमम् भङ्गस्य भोगाययो राजानबोभ्यः हिमम् गाय भङ्गस्य भोयो राजानबलोभ्यः हे नामो नद्यो धन्वान हे नद्यो दधा हिरण्याख्यानयश्चयत्राणद्वारिलक्षितम् चिमयो विद्यार्थब्रूयाते यमः हैवस्व दैवृक्षम् जय मेधाय जनाः चैलक्षय नैत्यम् जय उजानः चैलाजवीक्षम् जय स्वायम् जय स्वामुख देवा विश्वयेन वक्तम् दिग्ब्राह्मणा गच्छा भगुच्छति शस्ति देवैः संविष्पदयः पिता पुराणानुवेदयविरन्दोनिता वस्त्रमुत्सकम् सतताम् हस्ति नेत विफलम् पितामहम् प्रपितामहम् विभह किन्दमाने द्रन्देम मद्यानम् जयामिम नियश्चपूर्वः युनोतनाक्तम् यमोददात्तवसानमस्मै ा सुरम् कृतदुलाञ्जनम् सुनमष्टामुलिङ्गनाग्रेणा सुनमस्मानुषम् सुना हे राजमाणम्बाङ्गयः च नेमापभ्यञ्चनम् हेदेवन्तामहे त्वागे भवान् एफ्रारक्सुखना पुदेता रक्सुखना पुदे कजितेरी नाहे घरी रामेटु कर्गेरे माचल पस्था दे तेविर देलम्भवा तुन चद्धमक्त निया देवया दादा रेष्पणु रस्कारमक्या जो जिरावा मतुपर गण्दा तवा दावां सिवत � लोके भूयः विततो देवता देवतया आत्यायपसन्ते पुत्रे तद् एवम् लोकम् नितद्मो महकुञ्जम् मातावत्रयनम् <Sessly> <Sessly> <Sessly> <Sessly> उत्पन्नमानाप्रेश्वरन्तुर्ज्वानाविस्वाहत्व इदम् विदध्य प्रभरे वा दक्षाम् उौदम् वा देष्टां वा माता पुतिरक्षालमलार्जे विराजरे म्फलादातो धर्मजले परम् वञ्च राजपले गन्थान्यत्रयस्तैले सपुष्पदेवादश्च सन्तोषेः सम्पन्तानि वैद्यमाः सूर्यास्ता लोकेशालयान्मादितलो देवताः प्रजापति हृदया देवनया अन्तरे गच्छत्वादिगत्वा विषान्दागच्छत्वा वित्वा वित्तरे राजया नः प्रजापदित्वादापोपमादितरुणेदोक्तनिकलप्रकलक्षपलये देवानाम् ऋतपादने स्वजा निधीयने गृहे अहं कलाता युक्त्वा तथा तान् द्वापायत्सलां देवैर्ना युक्त्वा कामनन्दिदेवताः प्रजापरिस्त्रादाः हृदया देवदया अपूर्वरां सिद्धवान् खेरवान् प्रतिवान् मधुवात्तरुणे हतेतोत्तः प्रदां तजेन् जातुपरे तौ लेखतः सिद्धस्तब्धं तजेन देवमानः कृत्स्वनाः एकादे शत क्षलाः कलाक्षुलाक्षलाङ्गयश्वम् रामादौ देवला प्रजाभयत्वागादेवलया देवलया देदा चे तुदाम दाना करम याद ते दाना पर गिलाम यत्ता आख चे यों कि दुदित्तम दानों तुदेनों का मुदा आप करोदो कमज नोड़े नांपयो गिन्बान इप्वितो है तावान ग्रामत ज्यादा दोने दुद्ध ज्वाद दोनमाना रश्तंब्रमा हिमान्चनम् लक्ष्यामि भोजो समुदेव ः जयश्च वनस्पतिः विषद्विधादया पुलघाद् जयुण्डमया पुलगा जयरागुण्ड यमयवया पुलघा जय रागुण्डे ङ्गच्चान्तरिक्षङ्ग चलिवङ्ग चतुर्ग चतुर्वर्ग चतुर्वर्ग चदिरोगिवङ्गच्चान्तरिक्षङ्गचेङ्गयम्परिधायुजानो त्यः बुद्ध्यायम् अवनश्वनद्वान्वारभामहे स्वस्य सम्पादनभव भद्रा देवभोजन्माद्योय प्रधनान्धान्यवयम् स्वगतये वद्राधियाय प्रधनान्धानः हिमानाय विधलाञ्जनेन सत्कृलम् कुचुन्द्रमो नीवासुसेवादो हिताञ्च मन्त्रैककृतम् जातकिमरेनामतस्य मूलेनारादे अवनश्वलयम् अवनश्व नखम् अपरश्रद्धनो रवयमो यमसो याजेयनामह अवश्रद्धो जगन् तेरभञ्जे तगे गाम प्राप्त्वा कदाच सोरेह परस्वोदन जगन् तेरजस्त रक्तो विस्रोयन्ति दुवयः अवश्रद्धो जगन् तेरतेन सोरे योजायेने पदेयम् अवश्रद्धो जगन् तवमेसोरा अग्रस्थः प्रहोरगे अवश्रद्धो जगन् ोषदघान्दामघम् अपनशोषम् उद्वनादुगालेख्यन्दनामघम् अवनशोषम् आनन्दाय प्रमोदाय पुनराय नवाय अपनश्चोषदघम् अवयश्च पुरः पशवैतम् ब्रह्म क्रियते पृथुजीवनाम् नरित्येताम् माम् जियमाया देवीष्टागम् शिभवनो लोकौ सेः यताय गासाय देभ्युद्रादित्याः प्रणवालिकृतवेदनायमाकामना कामीष्टा न्तिः मधुरिमायान् पुत्राणादयङ्कृ ृहस्पतिः सन् ब्रह्मणे नमसेवायत्प्रत्यक्षम् ब्रह्मादि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामिवदिष्यामि सत्यम् वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवलमाम् अवलमक्तारम् ओम् शाम् ऋष्याम् तिष्ठाम् ते श्रीक्षाम् याक्ष्यास्यामः कन्नस्सः मात्रामलम् सामसन्दानः चित्तध्यायः सह नयसः सहनौ ब्रह्मवत्स्रणम् तथादत्तकम्भियाम पुनरम् याक्ष्यामः पञ्चस्पेकमभिज्योतिषमभिध्यात्मम् असाधिलोकम् पृथिवेगोर्वलोकम् आकाशः सन्धे पायः सन्ध्यायम् इत्यधिलोकम् असाधिज्योतिषम् अज्ञत्वलोकम् आद्यस्य उत्तरलोकम् म् हादित्रयम् मातापोर्वलोकम् हितोत्तरलोकम् स्वजा सन्तेधानम् एवमेता महाताख्यातावेता सन्धीया मेधयाः प्रणोद अमृतस्य शैलम् मेन्द्रणम् चिक्वा मे मधुमत्तमः कर्णाभ्याम् भोजयिशुरम् ब्रह्मणः कोशात् मेधया अन्नपाने सर्वदायन्तचारिण स्वाहा हिमायन्तब्रह्मचारिणस्वाहायन्तब्रह्मचारिणः स्वाहा समायन्तब्रह्मचारिणस्वाहा समायन्तब्रह्मचारिणस्वाहवचनेता निस्वाहा निवाहा सन्ताहकर्परि स्वाहा समासकर्पजिषस्वाह सत्यम् समर्थसाखे हिपय स्वाहा यथा वक्लारते यथा जनम् एवम् माम् ब्रह्मजायः धावशित्तमा लज्जत्वारिवारे महानमस्त्रे महयेत्मा अङ्गारादेव भोरि दिवा अयम् लोकः भोरिक्षो लोकः आदित्ये नवावसर्वे लोकीयन्ते भोरि दिवा अग्निः भो इति वायुः स्म इति चन्द्रमाहारः चन्द्रमधारा निर्जो निर्महीयन्ते भोरिवादितः भो इति सामाने सुभरिभेजो ब्रह्म न हलामहीयन्द्रे भोरिवयेणः भुवैस्य बाणः सुवरिमहीयन्द्रे हलायष्टः प्रचलत्र ब्रह्म परमेसि दे ते देवा परिमावादिते खयेनो अंतजल्यानां काशः तक्केन नयम् गुरुकामनामयः अमरानं मुरयः अंतरे नसालुके तेरत्नैव अवलंबजये सेनेंद्रियोनि चत्थवाहुकेन गम तोयस्कले तवा चित्तेन नभवले गुरुचक्रनो परिस्थले भृयिलायलो सुभैत्यादित्यम्भे शास्त्रविज्ञानपदे चेतत्पदलो भवते आकाशदेव मनः आनन्दम् शान्तिसमृद्धमृतम् हिप्रायेण योग्योपा नित्यश्चन्द्रमा नक्षत्राणि बोधम् तथाध्यात्मम् प्राणमानवदानक्षमानः ब्रह्म लोणात्मके सर्वम् अप्यवस्थाभयक्षास्त्राभयन्ते ओमिति सामानि गायन्ते ओगुं स्वामि शस्त्राणि ोमेत्यवक्ष्ये बाबा त्रिञ्च स्वाध्याय प्रवचने च कथ्यञ्जस्वाध्याय प्रवचने च समस्तस्वाध्याय प्रवचने च समस्तस्वाध्याय प्रवचने च समस्तस्वाध्याय प्रवचने च अग्नयश्चस्वाध्यायप्रवचने च अग्निवाञ्जस्वाध्याय प्रवचने च अधिभयस्तस्वाध्याय प्रवचने च मार्भञ्जस्वाध्याय प्रवचने च प्रजातस्वाध्याय प्रवचने च प्रशस्तस्वाध्याय प्रवचने च स्वाध्यायप्रवचिवमस्ते शरिणम् समर्थम् क्षितः देवाभिस्त्रे सत्यम्बला धर्मञ्चला स्वाध्यायान् आचार्याय प्रियन्धनमागत्य प्रजानन्दुम् मा च भक्षेक्तेः सत्याक्रमदितव्यम् धनुमानान्यक्रमदिम् न्न क्रमचनाय वैभवैभव ध्यान्य कल्माणि श्वयाद्धया लेयम् श्रिया लेयम् श्रिया लेयम् श्रिया लेयम् संविता लेयम् हरे हृदय कर्मजिगित्साजिगित्सावारिणः चित्ताः लिप्ताः अलोक्षवत्सेताः एतत्र ब्राह्मणाः एवमुख्यम् एवमुदेव मित्रश्चयमः क्रमः ब्रह्मणे नमस्तैवाय प्रत्यक्षम् ब्रह्मादे पामेव प्रत्यक्षम् ब्रह्माभिधम् प्रत्यमवालिम् हन्मादेन तद्भक्ताम् आवेरद्भक्तारम् ॐ शान् निशान् निश्शान्ते शामहे ॐ शाम् तिष्ठान् तिष्ठान्ते ब्रह्मविदानवनन्दम् ब्रह्मा सर्वेदम् गुहायाम् परमे एतस्मादात्मनः अत्येतमेव शिरः अयम् दक्षिणः पक्षः अयमुत्तरः पक्षः अयमात्मा इदम् वृक्षम् प्रदिष्टा तदेव अह्ना सामर्थ्याश्च भजे श्रुताः अभो अन्येनैव जीवन्ते अपेन सपयञ्जन्तम् तदः अन्य रस्मात् सर्वबृधमुच्यते सर्वं वै जैन्न माप्नुवन्ते अन्न रस्मात् सर्वच्यते अन्ना भूताय जायम् च धान्यन्येन वर्धन्ते अद्य दे त्रिकभूताय तस्मादन्नम् सदृशैरे क्षिणपक्षः अपानोत्तरपक्षः आकाशमात्मा फल तेजस्व भवते मनुष्या अजमश्चय प्राणमपिभूता नामायुः सप्ता सर्वायुसमुच्यते सर्वमेव सायजन्ते प्राणूता नामायुः सप्ता सर्वायुसमुच्यत इति तस्यै शारीर आत्मानद्वारेश पूर्णः समादेशपुरुषविषये सस्यपुरुषविधलाम् अन्वयम् पुरुषिरः सत्ययः जत्दक्षिणः पक्षः तामोत्तरः पक्षः भवतेवर्तन्ते अप्राणात्य अन्याम्पूर्णः सपाले वा हस्य पुरुधराम् अन्वयम् गुरुलविधः हस्य श्रद्धयोजिनः विदम् दक्षिणपक्षः हस्यमुत्तपक्षः योगमात्मा महत्पथ्यम् पृष्टेण स्वर्ग भवते कल्मायविधाज्ञानय मन ब्रह्मज्ञयश्चय यज्ञानमाद्यते शरीरे वा आत्मनो हित्वा सर्वान् कामान् समस्तु रजे हस्ते जयेव शारीर आत्मा चक्रो वस्या तस्माद्वारे तस्मात् हन्यत्मानन्दमयः एकगविध एव हस्य गुरकवितराम् अन्वयम् गुरगवितः ह्येवलः मोदक्षिणःपक्षः प्रमोदोत्तरपक्षः आनन्द आत्मा ब्रह्मगुच्छम् प्रदि भवते असब्रह्मेत आत्मार्वस्याः उदा विद्वानमनुलोकम् प्रयच्छते भवत्याम्त्वारि <Sessly> भवते <Sessly> <Sessly> <Sessly> <Sessly> निरुक्तञ्चानिलक्तम् च निलयञ्चायनम् चित्याम् चायम् च सत्यम् चलम् च सत्यमभवने सत्सत्यमित्या भवते असद्वायग्रहदेव स्वभावे सुयमभुरु सत्मात् सत्त्वमित्ये कोक्षेवान्याः शब्दान्यानन्दो न स्यात् शेषक्षेवा चिन्दने अथ च भयम् गतो भवते यदा देशो देशोल्यः एतात्मारज्ञश्चात् सचावलि पञ्चमगते एतानन्दे मांसा भवते शुभाश्चार्वाध्यायकः आदक्षो दशः सत्ययम् प्रचले तनुगा स एकमाध आनन्दः हरेदम् माधः हे मो मनुष्यकम् सर्वानामानन्दः स्वत्रियस्तदा रामः सत्या हे वेदम् मनुष्यकम् सर्वानामानन्ताः हरे देवनम् सर्वानामानन्दः स्वत्रियस्तदा कामः सत्याः हे वेदम् देवनम् सर्वानामानन्ताः हलेवनामानन्दः स्वत्रियस्तदा रामः सत्याः हे वेदम् विदमान् सर्वा कलाकानामानताः हरे का जामजानाय देवानामानन्तः रसे रच्चमः दत्या हे माजानजानाय देवानामानन्ताः हरे कर्म देवानाय देवानामानन्तः हे कर्मणा देवानगयन्ते रसे रच्चामः हैलेशलङ्गेवानामानन्ताः हरे गो देवानामानन्दः स्वश्रेष्टामः तस्याः हैलेशलम् देवानामानन्ताः हरे केन्द्रस्यानन्दः स्वश्रेष्टामः तस्याः हे लेशलमिन्द्रस्यानन्ताः हरे गो बृहप्पदे आनन्दः स्वश्रेष्टामः तस्याः हे एतलम् बृहप्पदेः हरे प्रजापते रामन्दः शौचेत्यरामः तस्या हे एनम् प्रजापतेनानन्दाः हरे ब्रह्मणानन्दः शौकेत्रामः तस्या तैत्रायम् पुरुषे चाकामादित्ये हरे हे मङ्गले अस्माकाश्रये च हेदमङ्गमयमात्मानुपथम् एवम् काममयमात्मानुपदम् हेदम् मामयमात्मानुपदम् रामदे हेदमानन्दमयमात्मानपदम् रामदे प्रचो निवर्तन्ते अप्रा यमनसानन्दम् ब्रह्म विद्वारा अभिदेवं वक्त्रं यते चेदवन् महामण्डपदे तुम्हारा गुणराघुनाराघवं जिनं पापमजरामिजे क्षेमं मिथ्यालेते आत्मन कृपमदे पुदयतेर्येदेर्ह आत्मन कृपमदे देवं वेदना मिथ्यावरेदे सहना भवतो तारो भवतो सजेन्यनवराहे तैलस्विनामधे नम प्रमाणि श्रीरामरे शान्तिश्रान्तिः जपकृ परमदादेशभगव ब्रह्मे हस्ता एत अन्नम् प्राणम् चक्षस्राव्रह्म राजा कृपतानि जायन्ते यम् कथिलम् विनाम् अन्नम् प्रयम् कथिलम् विषन्ते तद्भिज्ञायम् तद्यज्ञाय पुनरे वर्णम् अधीक्रम्भ्यते ्रमजिज्ञासत्वा तपोग्रन्थयते ततपोदक्षतपत्सत्त्वारिभूता निजायुजे मनः प्रयम् दभितम् निदन्ते अर्धिज्ञाय अधेतबोजयते रणम् वितराय अभेम्भे ्रह्मवेतत्वायन्ते आनन्दे न जाता न जीवन्ते आनन्दम् वयम् दपि संविशन्ते परमेष्किता क्षते अन्नवा भवदे महान् भवते प्रजा अन्नन्याय सद्भरम् प्राणो बा शरीरम् नालम् प्राणे शरीरम् प्रदक्षिणम् शरीरे प्राण प्रदक्षितः करेण नमन् ने प्रदक्षिणम् हरे रलम् धन्यवान् नाद भवते महान् भवति प्रजयाप्रदक्षितम् अप्रदक्षिताः फले नमन् नयन प्रदक्षितम् फलेलम् नमन् नयुरक्षितं वेद पुर धन्यवादम् नाद भवते महान् भव निया अन्नम् बहुपर्वेदम् अन्नम् आकाशोऽकाशप्रदक्षितः आकाशे कृषये प्रदक्षिताम् न मन्ये प्रदक्षितम् हवेद्रम् न मन्ये प्रदक्षितम् ये प्रदक्षये अन्नवानम् नादो भवते महान् भव निनवसुधौ प्रत्यागक्षीता एतच्छै मुखतो राध्यम् राध्यले एतज्जा मध्योरोऽन्न राधाम् नगुं नगुं मध्यतास्मान्ने एतद्वान्ततोनापानयोः कल्मेऽपिहस्तयोः वायौ माज्ञाः कृत्रि दृष्टौ फलमिति विद्यते यशैलो ज्योतिर्दिनक्षत्रेषु प्रजातिरमसमानन्द इत्युपक्षे सर्वमित्याकाशे हस्पुत्यपाधेत प्रतिष्ठावान् भवते हन्म इत्युता महान् भवते हन्म इत्युता मानवान् भवते हन्म इत्यमाः अद्ब्रह्मेणश्चिबाधे ब्रह्मगारम् भवति अद्ब्रह्मणः परिमलेश्वरन्द्रः पर्यः कश्चायम् मरुजयश्चाताधिक्ये क एषः कलेव गम्य एतम् प्राणमय महात्मानुपदं गम्या एनम् मनोमय महात्मानुपदं गम्या एतम् विज्ञानमय महात्मानुपदं गम्या एतमानन्दमय महात्मानुपदं गम्या माङ्गकान् कामाञ्जे कामलोक्यञ्जरन् एतम् प्रामकाय हा गो मुद्रे कवय वयम् देशक्षरे वहने प्रजाः हृदप्रदोरान्यभूम्याःतादिकलाचलानिरीरम् निर्मः महतो महान्तम् नन्दलोकम् विश्वम् पुरानन्दमतः परस्तादेवम् सलपत्यमाहस्तदेव ब्रह्म पदमण्डलीनाम् तिष्ठाभवत्सम् बहुधा राजम् चायमाणम् विश्वम् विभक्तिभवनः सदैव सुप्रमुखम् वल्लाभस्त्वप्रजापते सर्वे अलामो होल्टा आक्ष्टा आक्ष्टा ओर्टा चुरल्बचा अध्धमाता माता जवस्दम्धत तरश्चकर पंतां। पाव कुझे उलेलीमें अंजरे ख्रमतो तुथः। धैनमो बदन्ना तरियन जन्ना नंदेमरियक्त पदे। प्रत्रे जरिकत्त नरश्चर नाम भवन्ति अध्यस्तम्भैत्यर्थ प्रतिदोषोभिरातश्चे हिमानश्च प्रत्यम्खाः चकज विश्वतोमुखः विश्वविश्व विश्वतो हत्रमुत विश्वप्राणाले य षि सम्भवत्येकम् जलगुण्डन् अनुसन्मविद्वानन्दम् सर्वानाम् अधिगतम् गुहादो श्रीपदाधिकिता गुहायस्तद्वैत विद्वत् पितासरे येत्तिभोकानि भवेत् च प्रजहाति पशवमराजस्य आत्मनात्मानं विलम्भोमा तदपस्यमद्भुजं प्रियमेन्दस्य काम्यं तंज्ञेसावयादतम बुद्धिहे कृत्सुतादवेत्वां वैन्यन ब्रह्मणा असोगिष्टमच्यनाम भजेन चलिसोविदा मानारिणं तेष्याजगत्को कामस्तं पूर्णं जगदे एव भरणं नारहे तेना मावैभादय न्द्यप्र जोदया राज हारहे रक्षालेमहे अन्ना नन्द्यप्रजोदया राज हरि प्रहे महाधयना न्न षण्मुख प्रचोदयाय सत्वहे सुमनाय विष्णहे हिरण्यगीमहे अन्ना ब्रह्म प्रचोदयाय नारायणाय विष्णहे वासुदेवाय धीमहे अन्नाष्ट प्रचोदयाय अज्जनकाल विष्णहे देष्ण धीमहे अन्नाय बृह प्रचोदया हे महर्षिकलाल भीमहे प्रचोदयाज हेपालि स्तै नारीमहे अन्नाज्ञ प्रचोदयाय हा त्यागिनाय स्महे गण्यकुमार भीमहे कन्ना प्रचोदयाज सवणे प्रमो लालाने पापं सौर्वानु आनन्दाः आनन्दात्महे हृदप्रविढप्पये हेवानो हृदयेन हृदयविधा ह्यामृेन प्रेण विरोहे तस्याे त्रये विधे महमिदा वयम् हस्मक्रान्ते सक्रान्ते विश्वक्रान्ते वरुन्धला शर्वाहारे श्यामय कृष्पमाहम्बे हे या वक्तलङ्करम् सत्यके ब्रह्मदत्ताधिकाक्षिवं कृताकेहि वक्ष्यन्मयि सर्वम् प्रचक्षिलम् प्रचक्षिले सर्वम् कन्द्रिके अजाहरेण भावेन कृत्वा हृदयन्द्रभयामेन भगवन्मोदले अविद्रजा्र पुरेव अभयङ्करः स्वच्छिन इन्द्रुद्ध स्वच्छ पूजामित्रमेधाः स्वच्छ आवाहम् कमन्मण प्रथमविश्वारा लतावनानुम् पतिमानानि शम्भरि ज्ञानम् प्रथमम् बलिवे मदोनाव समुद्रिया भवानस्य विदच्छान् कर्म सप्लान नित्यपक्षान्तम् सर्वभोदाे भजतो सत्यमो हन्त वित्रेण पुत्रेण आत्मानमराजन्दरेन्द्रमम् ेवया <Ses> <Sessimus> <Sessimus> ङ्गम् वरुणम् प्रवर्जयतिरक्षप्रदायम् पुनः जे, क्षमालग लोकपुरात्मगवर्गणः इमङ्गे गङ्गे यत्त्वायान् समुद्रान् नवः समुद्राणाम् नवायिता भगवति पुरात्रे भुवनस्य भोक्तः एकपुण्यकृतादिकन्वयम् <pyatled> े ज्वन्द्रम्भाम्यन्द्रम्भामत्ये हमे ग्निः <Sessantik> आगच्छामि नमः तवना च वन्दे वैरोचने नमः वदेदुस्तां तुगान लेले गुम स नमः हम प्रबद्य सदा देनमः अगच्छम पारयाम च वत्मान दर्श गर्विस्ता विस्तां ओशोते बोलानो जय महागोराय समगा जयोस् स्वामिनो तव कारनाले दपिनम न आवदा विदादवरे ैवज्ञे रत्नागमेणम् च सत्यम् विश्रयत्वा पश्यन्त न्तः भवान्नम् पागवेन्दरिक्षानुले स्वाहा भो अग्ने स्तः भवय अन्तरिक्षायस्ता नव इत्यादिवेयस्ता भवद्भुभक्त्वा नमो देवेभ्य प्रदात्पक्त्वा भोरञ्जने चिङ्गेन महदे दत्वा राभवन्तरिचारिनमहदे दत्त्वा राजमरादित्यादि दत्त्वा चन्द्रो जय नक्षत्रेभ्य महदे दत्वा जय स्वाहा स्वाहा सर्वम् कार्यः न्यायकया पाठ्यः पार्टिलोचन्द्रीयः पाहिदशरभाषन्ताः दत्तन्दाचार्य दृक्षप्रन्द्रः ज्येष्ठया य अस्तरे राजरणम् धारे लाभो याङ्कर्मयो वस्तुब्रह्मा ब्रह्म्यवन्तमस्तुतन्तपश्चान्तबोधवस्तवस्तभस्तबोधानन्तबोधोद्भवस्तु अध्वम् हेतनुमः शताक्षस्य रोरा ग्रन्थो चैवन्धोभारान् वद्यामेजमे प्रेष्यामि रक्तम् प्रदिष्यामि चैव अनवरणीयान् महतोप्रसादान् महिमानेवम् तत्र प्राणाप्रभवन्ति तत्थाः सप्तामिदय लोकाय प्राणा भगवन् सप्तभक्ता अधश्च मद्रात्माच्चम् देविन्धमकर्मरोः अधश्च विश्वावयोः जयने लोमस्य प्रत्यन्तरात्मा ब्रह्मादेवानाम् परमेश्वनामिष मित्राणाम् हिमृगाणाम् हेनामित्राणागस्पतिथलक्षेदने भे हमेकाम् दोषितम् मत्ते भजाञ्जनयन् देवम् स्वरूपाम् अजोत्येको येन भुक्तभो धामजोन्यः अयम् तत् गृहं लक्षवक्ष्य हव्याम् समुद्रान्तु नास दत्तवानरेनामगत्यङ्गिरपि देवानामृत्यनाभिः ङ्गा गौढेन चत्वारिहस्ताय वेदमहादेव प्रणामं परमं भक्त्या वर्तमानं दिव्यं वात्सल्यं आत्मरत्नं हिन्द्रेकं समतोलेहन्तकाः बहनाः दैलक्षपक्षया लक्ष्यो त्रोरेवां आत्मनमं वरत्तः सिद््धं हरिः तं जगतोन्मत्तगारेमानं कुन्दनां वैभवसुदयाऽस्तु चैगलत्तो चित्तापन्नं भगवन्तेन दिव्यं तत्पान्नाली रमस्याय वरः सकलः त्यागेन ब्रह्मलोके चक्रम् विवाहम् परमेणेश्व भोयत्वम् च एकम् गुणमध्य लभ्यस्थाम् अत्रापि लग्नम् गगनम् विदम् तत्र प्रोक्षो वेदान्तेन प्रदीक्षितः तस्य प्रगतेन त्रयः परस्तमहेश्वरः देवम् विस्वार्थम् विश्वम् भुवम् विश्वन्नारायणम् देव क्षरम् ईश्वरफलम् विश्वम् नारायणम् हरिम् विश्वमेवनम् परायणम् राजायवराज्यो आत्मा नारायणपरः नारायण वयम् ब्रह्मदत्तम् नारायणपरः रायणवरा ध्याताध्यानम् <nik> नारायणपरः तीर्थगिने सर्वम् दृश्यते अनन्तपवेश्यः अनन्तमध्यन्तग्रे अन्तम् विश्वरम्पुरम् अत्र बोधे हृदयञ्जनात् ज्वालपालपुरम् भागे विश्वस्यायम् जलाभिश्चलम् प्रत्यागोलिभम् तस्यान्ते सोक्षम् तथ्यन्न सर्वम् तस्य मध्ये चरन्तः तम् जयमाता समर्थकः तस्य मध्ये वन्यस्थितः न्देवाया मध्ये परमान सुः परमत्सय न् मङ्गलेष्ठन् <virtan> <Pay Zonemun diffic mex nữa> आदित्यलेलैवोपुत्रार्थं सत्यमिकाल कामदाङ्गताहित्यगुङ्ख्यदानलोकता य नमः ओन्ध्वलिङ्गाय नमः हिरञ्जलिङ्गाय नमः सुवर्णलिङ्गाय नमः इर्याय नमः भवाय नमः भवय नमः यनमः शिवायनः शिवलिङ्गायनमः द्वायनः नललिङ्गाय नरमायनः परमलिङ्गायनः यत्र सर्वलिङ्गव्यक्त प्रेतिपानि मन्त्रम् पवित्रम् ्यानि सद्यो नमो नमः बलप्रभनाय नमः सङ्गभोतय नमः सर्वेभ्यो नमस्तेभ्यः दुर्गाय विद्महे महादेवाय धीमहे प्रचोदया सर्वविद्यानामेश्वर सर्वनाम् ब्रह्माधिपजद्ब्रह्मणोधिपजद्ब्रह्मा जिवामे अक्षुतदा शिवा अमो हिरण्यपादे हिरण्यवन्नालि हिण्यरूपाणि हिरन्यपदये पशुपदये नमः ब्रह्मगुरेण कृष्णपिङ्गलम् और्ध्वले संवितो भारतम् विश्वरूपायवे नमः सर्वे उद्गस्त्वे रुद्राय नृद्धम् नमनो नो नमः चित्तम् भोजनम् भनम् चित्तम् बहुधा चायमानम् जयते सर्वे रुद्राजिन अस्तु क्षुच्चय प्रदे भोजने भवन्तमजे सर्वे रुद्राजिन अस्तु यत्रैकम् गत्यज्ञः एव राहुलयस्य पञ्च प्रयच्छे देवालम् भगवामनस्याम् सर्वभूतानाम् माता वेङ्कटे महता महेदायत्रेकायते वृक्षे बहुला विश्वा भोताकमाकाया आपोमाल्यम् सर्वं निश्चा भूतावत् प्राणावत्प्रापन्नश्चनन्दे गोतापुनागुमान् पुनन्द ब्रह्म तत्र जम गोतापुनागुमान् त्रिवक्षमभाराद्यत्वारितम्बः सर्वम् पुनम् समार्गत्वाधराः अर्जक्षमान्य षट् किञ्चदम् मये हिमहम् ब्राह्मदौ सत्यमन्य यत्किञ्चित् विदम्मगे इदमहम् ब्राह्मदौ ौर्येभ्यो मिष्टाः ओलित्यैकाक्षरम् ब्रह्मा अग्रिव ब्रह्म इत्यादिकम् सायत्रम् गङ्गम् प्रमात्रम् सायज्ये योगम् आयादुवरदा देवी अक्षरम् ब्रह्म संविधम् सायत्यम् ब्रह्म गन्धाः कुरु दे पापम् ग्रन्थाः पुरुषे हरिद्राक्षयाः पुल्कम् प्रद्राः प्रतिमुच्यते सर्वकर्ण्याः देवी सन्ध्यालित्य वनस्पति Varadaiva maradevasa yo yema namah thamana va jarikrama visva visva dharma devaro ngaya sri mahavahaya vidahitri mahavahaya vidanapadeva vahavahaya visantara ye nama mahaya vidya namah jalikaya dhare tri chanda visva visva devada agya mukam gambhasra vikshara ko nam jatihapati deva yatra na va agya च म् ओम् तत्सविसुर्वम्भो देवस्य धीमहि श्रीरोहत्प्रयोजया या बलकारयन्ते पवने च जाता आयुक्तजुल्याम् द्रविणम् ब्रह्मवत्सलम् शक्यम् दत्तात्जातम् ब्रह्मलोकम् क्षरम् अनुक्षरम् ब्रह्म मे पुमासुमे मधुमे सुमाणाम् शास्त्रे भव प्रजावस्त्वभिहम् सुस्वप्नहम् वरुषः शास्त्रे भव प्राणाविताञ्जहोरि त्याम् एषन्ते हे भामम् प्राप्नुवन्ते ओह्ममेधयाः मधुमेधयाः ब्रह्ममेव मधुमेधयाः अद्यानेव यद्धराकाशुक्षरम् अनुभृजः मधुरान्नामजन्मसुभागणोर्यः महाभ्ये भवन्तुनः ये इमम् श्रुतवर्णमयादिनम्बन् पठन्ति ते समम् प्राप्नुवन्ते आतहस्त्रार्थम् पुनन्ते ओह्ममेधवाः कसुमेधवाः ब्रह्ममेव पसुमेधाः ब्रह्मादैवानाम् पवित्रमस्य अन्तर्गतामनसामाणाः जगत्सारा अमिताभिन्तु जगत्कुलाये भयन्नाश्चयीरे सुवर्णमयादिकम् रामपराय विद्याम् मन्त्राप्नुवन्ते पङ्क्तिम् पुनन्ते ओ मेपादेवे समानादे भद्रासुमानाः प्रजायक्ता समानाः प्रजागच्छाः अप्तरा मेधायम् सर्वे मेन्मलभ्यः अहं मेदा लोके विश्वो भागलं नवान् धागदेय कन्याः गोस्यास् त्विले वै दरिन्नानां मेदाः पदे राजन्ताः भयेन मे प्रमययितस्य दोषात् विदेहाम् एवदनं भयेन दैत्यं तथा विदेहाम् एवदनं एवदनं विरो योज्ञोऽज्ञातोऽहं परिदेव मत् रत्नं नारं दैवत सदनं परिनामदः अन्नं वरप्तेर आगच्छति गिरां येत्प्रदाम हस्तये मदे परमं ज्ञानं वदे एवं पार्यस्य स्वयवरदेवकानां आलयः तत्त्वप्रदेसलमदे देवो ब्रह्मस्तजं येन समोऽयेनां वासंप्राणं मनप्राणं भवेत् प्रदावयस्य वास्य गोपाः नामत्यस्त्रेनाम पातकहयज्ञं देवानामधेन अमुत्रपो जाद देख्यनक्तिर्गप्त जे अधिजप्चे रभुंच्छा उच्चो हदा मुख्विना मुख्यबस्वाद बेवारा बढ़्ये विड़जाद जीविवि हरिकुम्हरं कमयं जिलेवादिक्वस्टे जानम्धिरों अधिना पुटम्हतल पुमनेरमा न्तर्भगम् वानवक्षन्त मतमानवक्षिणाम् मानो ान्यन्या विश्वा जातानिपरितानश्च वस्तुभयज्ञा स्वच्छतान्दे स्वच्छताभयङ्गनः कुर्वाबन्धनान् नृत्यानुत्येयनामृता हे हस्तम् माता मृत्यमृत्यायङ्गमहे मध्य वेदसाः मध्य वेरस्वाहा हेमग्रेन वा वेदनमदिष्ट्राहरथेन वा वेदनमदिष्ट्राहत्तेन वा वेदनमदिष्टाः आत्मग्रत्यन वा वेदनमदिष्ट्राह अन्यग्रहस्येन वा वेदनमदि अस्मद्गरथेन वा वेदनवदिष्टाः यत् स्वतन्त्रस्य नाङ्कदशेनस्य क्रमस्या वेदनमदिवाहा यत् सुप्तस्य नाकदक्षयणस्य क्रमणस्य वेदनमधिस्वाहाः यद्विद्वाघुम् तस्याविद्वागम् दक्षेनस्य कृमणस्या वेदनमधिवाहाया स्वाहािदे कलोहलोरिकामकर्ता नाहङ्कर्ता कामः कामकामाय स्वाहा मन्यक्रता नाहङ्गर्ता मन्येलाहङ्गो हिरण्यन्धनमन्दमानगम् सर्वेषा गच्छे स्वाहा श्रियञ्जलक्ष्यञ्जवक्युञ्जयेत्यञ्जल्यम् ब्रह्मण्यम् महमुत्तराम् श्रद्धा मेधय प्रजा सन्ददा दस्वाहाला कृलाश्रेलास्तिला सौम्यावदानुगाः दा, खिला परञ्च मे पावयत् किञ्चिद्वलम् मये स्वाहा स्वरस्याङ्गन्नवश्राद्ध ब्रह्मानुदम्पकः सौरत्यजरान्त्यगमुदमयम् दत्त्वाहालक्ष्मेश्व पुट्ये त्रिके चञ्जालुन्य ब्रह्मण्यम् बहुपुत्रराणाम् श्रद्धामे शय प्रजालमे दन्दरा स्वाहापमानामे युध्यन्ताम् ज्योतिराम् निरणाङ्गत्माभो याजग्रस्वाहालय बुद्ध्याभो यस्तत्वा मे युध्यन्ताम् ज्योतिराम् निरणाङ्गत्माभो या ज्ञस्वाहा प्रत्यल्ममागम् सदशरमे नो निद्राय क्षेदमे सिध्यन्ताम् ज्योजलहम् निरजालिव आत्मा भूयाजज्ञस्वाहा शिरः वायपादभायवा मे सिध्यन्ताम् जोजलहम् जलजालिव आत्मा भूयाजज्ञ स्वाहा उत्क्षिष्टपेन्द्रोहिलाक्षि देहिलेदला वेदा मे सिध्यन्ताम् गाया मे शुभ्यन्ताम् चोले अहम् जयामि वा आत्मा भो याद्रत्वाया मे शुभ्यन्ताम् चोले अहम् जयामि वा आत्माभो यादक्षत्राः मनोवागकार्यमाय मे शुभ्यन्ताम् चोद्य अहम् जयजामि वा आत्माभो यादक्षप्ताः सम्यक्तभारे अहङ्कारे चोले अहम् जयजामि वा आत्माभो यादृप्ताः भ्यन्दाञ्जोलि अहम् वेदानि वा आत्मा भूयाजग्यस्ता अन्तञ्जोलि अहम् वेदानि वा आत्मा भूयाजग्यस्ता परमानात्माने शुभ्यन्ताञ्जोलि अहम् गजानि वा आत्मा भूया जग्रस्ताः कृतिरा यस्ताः श्रीस्थाः सज्जिधानाय स्था स्वाहा श्रुतिमातामनाम् येषामलक्ष्मीनाशयाम्यहम् अहो लभ्यम् चान्यन्दनमेव महात्मानज्ञस्वाहा अन्नमयप्राणमयमनोमये ज्ञानमयमानन्दमयमहात्मा मे लभ्यन्ताञ्जोजनम् वल्लामि महात्मानो याज्ञस्वाहा स्वाहा विश्वे मेभ्यस्वाह गुलाय भौमायस्ताः सुगलक्षिणयस्वाः अचुलक्षिणयस्वाः अर्मिळेच्छाः धर्मा यस्ताः अधर्मा यस्ताः अभ्यस्ताः वनस्परिभ्यस्ताः चक्षोदेवनेऽभ्यस्ताः ऋष्याः भस्ताः अवधानेभ्यस्ताः अवदानपरिभ्यस्ताः haruhode jathaha haramaisaha amdaykai saha gadadadya tana sammaha bhagavanam eh swaha sruyay saha sundare kai saha jyesaha soyaya saha sandore saha nakshatreyasaha jyaya saha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 हेवालयस्तु धान्यम् सरस्तुधानक्षिरम् स्वाहा हे भवता स्वयम् आनक्षम्बलिमिच्छन्द्रेष्याः जलम् वृक्षिकामो वृक्षिम् वृक्षिवयम् प्रथा स्वाहा ओमङ्गद्ब्रह्मा होहङ्गद्वायुः होमङ्गात्मा ओहम् न सत्यम् होमङ्गत्सर्वम् ो अन्तत्वयरुयाम् विश्वमोक्षैलङ्क्यस्वक्तान्द्रमज्रं यक्षक्रम् ब्रह्मये हन्तरा महाभवश्च देवसौन्दरम् ब्रह्म श्रद्धायाम् कालेन विमृज भगिनी श्रद्धायाम् बाणेन विचामृज भोगे श्रद्धायाम् ज्ञानेन विम्रञ्जभगे श्रद्धायाम् दानेन वित्त अमृतम् जवामि श्रद्धायाम् वित्त अमृतम् जामि ब्रह्म इमहाय अमृता श्रद्धायामृतञ्जहामि शिवमा विजाय प्राणायस्वाहा श्रद्धायाम् प्राणेन वित्त अमृतञ्जहामि शिवमा विजाय अमानायस्वाहा श्रद्धायाम ध्यानेन विष्ट अमरञ्जवी शिवमा निजाप्रदानाय ध्याना यस्लामः श्रद्धायाम् उदाने निमिष्ट अमरञ्जवी शिवमा निजाप्रदानाय उदानायस्लामः श्रद्धायामम् समाने निमिट्ट अमरञ्जवी शिवमानुजाप्रदाय समानायस्वाहयि महात्रा दत्ताय श्रद्धायानाम् बाणेन विश्वामृगम् हुलम् प्राणवन्नेनाद्यायस्त्व श्रद्धायाम् बाणेन विशामलम् हुलम् प्राणवन्देनाद्यायस्त्व श्रद्धायाम् जानेन विशामलगम् वुलम् ज्ञानवन्नेनात्यायस्त्व श्रद्धायाम् दानेन विश्यामृगम् हुलम् प्राणवन्नेनाद्यायस्त्व श्रद्धायाम् समानेन विश्यामृगम् समानमन्नेनात्याः श्रीप्रेणादेष्टभुगाचक्षुः हैमाने रामस्तेः अयत् सोऽनना लोभरेण नाम येमे धारिणो न समानाः अवद्भां तमोहं येवेष दृष्टन मध्यपानं देहो धारणे तन्नापि किं चेत् ओत्त्रागतं गः तेन न नाहं ज्ञातुत्वा नमोऽस्तु रे त्वं सर्वे सर्वे सम्मत सम्मत सम्मत सम्मत परे यन वैदन् क्षत्रय क्षत्र ब्रह्मेन वैदन्ध्यत्र यज्ञोय गणदय न सत्यम् वरं वरयम् सत्ययम् सत्येन सुवर्गानुका वन्दे कदा वन्देत वैदिन मातमन्देत मयिगम्यजा मातमेन वन्देशमयित्यरङ्गे माक्षमेन वन्दे जानमिति सर्वाणि भूताय प्रदयु सन्दिदानान् माद न्द्रमा धेन मन्द धर्मगिरधर्मेण धर्मान्ना दुष्करन्द्रमा धर्मेण मन्दे भजनगिरो यागं हतरत्मानभ्रोयष्ट प्रजाले भोज प्रजनेन मन्दे गणित्य हरस्ताज्ञः ज्ञा हरत्वा ज्ञः त्रयमन्त्रे यज्ञ यज्ञो हि देवासत्माज्ञ न्दे मानसले विद्वागुं सत्र विद्वागुं सगेव मानसेन वन्दे न्यासय ब्रह्मा ब्रह्मा निव ब्रह्मान्यासये वाचलेल्यत्र एवं देशे य सुवर्णेन प्रजापतिं विदलमुपं भगवन्तः परमं वदन्तरस्मेत्येनोलोचने सत्यं बालप्रदेशे सर्वं वृदचिरन्द्रमा सत्यं परमं वदं जीवेव ब्रह्मचारिणो भोगानामं पदं जिगमे लघामः विधमेन नागं मुनयो प्रति भोगाना क्षिलं दस्मात् परमं वदन्ति दक्षिणा लोके प्रातायुं सर्वभो जीवन्ति द्विगन्तां यज्ञा भवन्ति दाने शमक्षिलं दानं परमं वदन्ति धर्माविष्पक्षा लोके धर्म्यक्षं वजान्ति धर्मेण पापमवनुदति धर्मे धर्मं धर्मं परमं वदन् यत् प्रजनम् वयेष् प्रोके धातु प्रजायाः पञ्च बालकृतदेवदत्या प्रजनम् वदन् यज्ञोगेश्वे विद्यादेवयान्तान् वामरे वदन् भवन्ति यज्ञैर्वं यज्ञं परमं वदन्ति मानवं मेत्रायां पवित्रं मानवेन मनसा ्रह्मात्मायाभिरामय लक्षित्ताभिपञ्च्यामृते पञ्जन्येन प्रजायन्दवोडदिवन े हाणां प्राणे मलेन समस्तपदा श्रद्धा श्रद्धयामेतामनदायुक्तं युक्तेनस्तु यज्ञप्ल्यात्मा यज्ञानेन विज्ञानं विज्ञानेन आत्मानं वेद वितत्साधनन्तः प्राणे अर्म नाम ञ्जज्ञापारेक्षा महत्त्वा ज्ञात्वा ब्रह्मविदयेन ब्रह्मणा महिमानमात्मा यस्मा ब्रह्मणा महिमानमित्येव अर्टेवं विदुदो एग्यास्याद पारिजवाई सद्धा मत्मेतरिय मुझ्णो रोगे रिल्डोवाई वरिवकर्यरक्रेश्चि घादरें जो भक्ता मार्च्यम् मन्यक्पजुत्त वोग्यद्वष्टमिजा रक्तिनावाँ धोगार अप्यानो ब्रह्मीयजा विद्यानन्दैवायक्षायम् सायं जनानि समनानि नवादो ये ट्वादा ट्वादा देवानामेवतायज्ञङ्गयो दक्षिण प्रमेयनामेव महिमानङ्गत्वा चन्द्रमरसायमा महिमानव ब्राह्मण विश्वानभिजस्मा जम्भणा महिमान महात्मधिगस्मा जम्भणा महिमान नित्य सह नो भो क्षमवेर्यङ्करवाहे एके तमस्तु मावहे ॐ शान्त विद्यालय हरिवय श्यामः ब्रह्मप्रामाय पदम् ओला धृष्टान् त्रिष्टाम् हरिः को आरण्यसमाप्तः